मण्डलान्तर्गतं हिरन्मयं भ्राजमानवपुषं शुचिस्मितं चण्डदीधितिमखण्डलद्धितिं चिन्तयेन्मुनिसहस्रसेवितम् ॐ अथात्मानं शिवात्मानं श्रीरुद्ररूपं जपेत् शुद्धस्फटि ध्यायेत् शुद्धस्फटिकसङ्काशं त्रिणेत्रं पञ्चवक्षकं गङ्गाधरं जयभुजं सर्वाभरणभूषितम् नीलग्रीवं ययाङ्गाङ्गं नागयज्ञोपवीतरम् व्याघ्रर्मपवत्तरीयञ्च परेण्यमभयप्रदम् कमण्डलवक्षसूत्राणां धारिणं शूरपादिनम् ज्वलन्तं पिङ्गलजटं शिखामध्योदधारिणम् दा पुरस्कन्धसमारूढमुमादेहार्धधारिणम् अमृतेनाप्लुतं हृष्टं शान्तिशिष्यदिव्यभोगसमन्वितम् दिग्देवतासमायुक्तं सुरासुरनमस्कृतं नित्यञ्च शाश्वरं शुद्धं ध्रुवभक्षरमव्ययं सर्वव्यापिनभीषानं रुद्रं वैविश्वरूपिणम् एवं ध्यात्वाद्भिधः ततो यजनमारभेते अर्जनने ब्रह्मा तिष्ठतु पादयोर्विष्णस्तिष्ठतु हस्तयोर्हरस्तिष्ठतु बाह्वोर्वीरस्तिष्ठतु जठरे हृदये शिवस्तिष्ठतु कण्ठे वसवस्तिष्ठन्तु वक्त्रे सरस्वती तिष्ठतु नासिकयोर्वाजस्तिष्ठतु नयनयोश्चन्द्रादित्यौ तिष्ठेतां कर्णयोर्शिनौ तिष्ठेतां ललाटे रुद्रास्तिष्ठन्तु मूर्ध्न्यादित्यास्तिष्ठन्तु शरसिमहादेवस्तिष्ठतु शिखायां वामदेवस्तिष्ठतु पृष्ठे पिनाकी तिष्ठतु पुरतः सूर्य तिष्ठतु पार्श्वयोः शिवाशङ्करौ तिष्ठेतां सर्वतो वायुस्तिष्ठतु ततो बहिः सर्वतोऽग्निर्ज्वालामालापरिवृतस्तिष्ठतु सर्वेष्वग्नेषु सर्वा देवता यथास्थानं तिष्ठन्तु मां रक्षन्तु